अथ सप्तविंशम् दशकम् दुर्वासा सुरवनिताप्तदिव्यमाल्यम् शक्राय स्वयमुपदाय तत्र भूयः नागेन्द्रप्रतिमृदिते शशापशक्रम् काक्षान्तिस्त्वदितरदेवताम् शजानाम् शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाण प्रभवसमं समम् भवन्तमापुः ब्रह्माद्यै स्तुतमहिमाचिरम् तदानीम् प्रादुष्यन् वरदपुरः परेण धाम्ना हे देवा दितिजगुलैर्विधाय सन्धिम् पीयूषम् परिमथतेति पर्यशास्त्वम् संधानं कृतवति दानवैस्सुरौघे मन्थानम् नयति मदेन भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे सद्यस्त्वम् विनिहितवान् पयः पयोधौ आधायद्रुतमथ वासुकिम् पाथोधौ पिनिहित प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजा त्वम् भुजगमुखेऽकरोत्सुरारीन् क्षुब्धाद्रौ क्षुभितजलोदरे खुद्धा तदानीम् दुग्धाब्धौ गुरुतरभारतो निमग्ने देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुम् कठोरपृष्ठाम् वज्रादिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन अम्भोधेः कुहरगतेन वर्ष्मणा त्वम् निर्मग्नम् क्षितिधरनाथमुन्निनेथ उन्मग्ने झटिति तदा धरा निर्मे निर्मेथुर्दृढमिह सम्मदेन सर्वे आविष्यद्वितयगणेऽपि सर्पराजे वैवश्यम् परिशमयन्नवीवृधस्तान् उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजम् त्वाम् अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनु गुरुपात्तपुष्पवर्षाः दैत्यौघे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते कारुण्यात्तव किल देव वारिवाः प्रावर्षन्नमरगणान्न दैत्यसङ्घान् उद्भ्राम्यद्बहुतिमिनक्रचक्रवाळे तत्राब्धौ चिरमथितेऽपि निर्विकारे एकस्त्वम् करयुगकृष्टसर्पराजः सम्राजन् पवनपुरे इति सप्तविंशम् दशकम्